ृष्णम् शशिवर्णम् चतुर्भुजम् रथम् नवगमम् ध्यायेत् सर्वविघ्नोपशान्तये यस्य द्विरतवक्त्राद्याः पारिषद्याः परः शतम् विघ्नम् विघ्नन्ति सततम् विश्वत्सेनम् तमाश्रये वसिष्ठमत्तारम् शक्तेः पौत्रमकल्मषम् पराशात्मजम्बन्दे सुखतातम् तपोनिधिम् व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः प्रणो देवी सरस्वती वाजे फर्वाजिनीवतीवतु तैत्तरीयसंहितान्तर्गत कृष्णयजुर्वेदसंहिता प्रथमकाण्डप्रारम्भः ॐ श्रीगुरुभ्यो नमः हरिः ओ गणानाहम् त्वा गणपतिकम् भवामहे कविम् कवीनामुपमश्रवस्तमम् जेष्टराजम् ब्रह्मणाम् ब्रह्मणस्पदानशृण्वन्भिश्चेदसादनम् ॐ महागणपते नमः ज त्वा गायवस्थोपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमभ्ययादेव भागवो रुजस्वदे पजस्वदे प्रजावधीरणमेव अयक्ष्मा मावस्थेन अस्मिन् गोपदौ नस्य पशून्पाहि यज्ञस्य घोषसि प्रत्यष्टकं रक्ष प्रत्यष्टारादयः प्रेयमगाद्धिष न्यरच्छमनुना कृता स्वधयाभिता कवयः पुरस्ता देवेभ्य मिह बर्हिरा देवानां वर्षवद्धमसि देव बलिहिर्मा त्वान्वङ्मातिर्यक्पर्वते राध्या समाक्षेत्रादे मारिषं देव बलिहृषत वर्षं विरोह सहस्रवर्षाभिजः पादिषु सम्भृता त्वा सन्नहनम् भूषाते ग्रन्थिङ्ग्रथादिन्द्रस्य त्वा बाहुभ्यामुद्यक्षे बृहस्पतेर्मूर्धाहार्युर्वन्दरे क्षमन्विहि देवङ्गममसि शुम्भम् देव्याय कर्मणे देव यज्ञायै मातरिष्व घर्मोऽ सिद्ध्यौरसि पृथिव्यसि विश्वधायासि परमेण मादृगंहस्तमापार्वसूनाम् पवित्रमसि शतधारम् वसूनाम् पवित्रमधि सहस्रधारकम् हुतस्तो हुता द्रप्सोऽ बृहतेनाकाय स्वाहांस विश्वायुः सा विश्वव्यता सा विश्वकर्मा सम्प्रक्षर्धमृताबलेर्म सुमत्तमा मन्त्राधनस्य सातगे सोमेनत्वायतधिविष्णो हव्यगम् रक्षस्वा कर्म एवान्देभ्यश्चेयं प्रष्टकुं रक्ष प्रत्युष्टातयोधोरविधोर्वधोर्वन्दन्धोर्वदयोस्मान्धोर्वविदन्धोर्वयम् अयन्धोर्वामस्वन्देवानामसितमम् अप्रितमञ्जुष्टतमम् वह्नितमं देवहूतममकृतमसि हृद्धानन्द्रकं हस्वमाह्वा मित्रश्चत्वा चक्षुषा प्रेक्षेमाभेच्छा मां विषमुरुवाता देवस्य प्रसवेश्विना बाहुभ्याम् ओष्णाहस्ताभ्यामग्रजेतुष्टन्निर्वं यज्ञेषु माभ्यामिदं देवानामिदमुनः सहस्थात्यै त्वारभिक्षे म्भेश्व नदृगुम् हन्ताम् दुर्गाद्या वा पृथिव्यो रुक्षमन् भ्यरीत्या स्वम्यज्ञहव्यगुम् रक्षस्व ेवोहस्रवितोत्पुना कृच्छिद्रेण पवित्रेण सूर्यश्च रश्मिभिपो देवीरग्रे भुवोऽग्रे धुवोऽग्रजिमै देव्याय कर्मणे देवयज्ञाया अवधूतकुं रक्षोऽवधूता रातयो जित्यागसि प्रथित्वा पृथिवीवे त्वसिशवनस्पत्यं प्रदित्वा दित्याग्ने विसर्जनं देववीतये त्वा गृह्णा त्रिरसि वानस्पत्यः सहितं देवेभ्यो हव्य श्वे जमावदर्जमावधद्युमद्वरदमयम् सङ्घारम् जेष्मर्णवर्धमधिप्रतित्वा वर्णवर्धम् वेत्तु पराभूतम् रक्षतां पराभूता अराजयो रक्षताम् भागोदि वायुर्वा विनक्तु देवो वः सविदािरण्यवायः प्रति अवधोदकम् नक्षोऽवधूदारादयोदित्या स्पगति प्रदित्वा पृथिबीवे त्वदिवस्कम् भजरति प्रथित्वादित्या स्पग्े तु धिषणाधिपर्वत्या प्रदित्वा दिवस्कम् भजुर्वेत् धिषणाधिपार्वदे प्रदित्वा पर्वजर्वे देवस्य त्वादेव प्रभवे बाहुभ्याः पोष्मा पामि धान्यमसिधिमिहि देवान् प्राणागत्वा प्राणागत्वा भ्यानागत्वा दीर्भ्यामनुप्रसिमायुषेधान् देवो वत्सपिता हिरण्यपाणि धिर्ब्रह्म गच्छापाग्नेमादन्द्रजादकुम् श्रेधादे निर्गम् रक्षो निर्दग्धा हरातया दुर्वमथिरेन्द्रगं हा यदृगं ह प्रजान्दृकम् हृतजातानस्मै यजमानायपर्योह धर्ममश्चन्दरक्षन्दृगं हानन्दृगं हा पानन्दृकम् हृतजातानस्मै यजमानायपर्योः धर्ममधि न्द्रिगम् हजक्षर्दृगम् हश्वात्रन्द्रिगम् हजजातानस्मै यजमानायवर्यो हधर्मासिषोदृगम् हयोरिन्द्रिगम् ह ष्णस्तान्यनिर्व्रतरीन्द्रभाजो विमुञ्चता संवपामिषमापो अभिरग्मदसमोषधयोरसेन सेवयदेभ्यर्मधुमतेर्मधुमतेभिसृज्यमभ्यः परिप्रजाताच्छद्भञ्जनयत्यै स्वाथय्यो यज्ञो माभ्या मास्ति शिरोतिघर्मादिविश्वायुप्रथ स्पोरुते यज्ञपति प्रथ तान् पदम् गृह्णे स्वान्तरितम् रक्षोन्दरितारादयो देवस्तादि्याश्रवय सपरिष्ठे अधिनागेग्निष्ठे तमपम् मातिधागग्ने हव्यगम् रक्षस्व धागग्ने वृक्षस्वैकदाय स्वाहा द्विधाय स्वाहा त्रिदाय स्वाहा आद इन्द्रस्य बाहुरसि दक्षिणः सहस्रशष्टिः शतते जा पृथिवी देवै जन्योषध्यास्ते मो न माहिकुम् शमपहतो रल परमस्याम् परापशतेन पाशैर्योऽस्मान्द्वेष्टियम् च वयम् दुष्मक्तमतो पृथिव्यै देवैरङ्गेन गच्छगो स्थानम् वर्षतु च परमस्याम्बरापतिशते न पाशय स्मान्द्वे प्रियं च वयं दृष्मस्तमतो मामो गमह सोगः पृथिव्यादेवयजना व्रजं गर्चगोस्थानं वर्षतु ते व्यौर्वधानेव सविदः परमस्याहं परावदिषते न पाशेर्यस्मान्द्वे प्रियं च वयं दृष्मस्तमतो मामौ परि गृह्णन्तु द्वे न चन्दसा दित्या त्वापरि गृह्णन्तु जागते न छन्दसा देवस्य च विदुत्सवे कर्म कृण्वन्ति वेदश्रुतशर नमः श्रुतश्रे रचिधा अधिस्पथा अस्युर्वेजादिवस्वेदिपुरा क्रूरस्य विसृपा विलक्षन्नुदाय पृथिवीन् जीरदा दुर्यामैरयञ्चन्द्रमधिस्पथाभिस्तान्धीराधो अनुदृष्ट स्थगन्त प्रत्यष्टकम् रक्ष प्रत्यष्टादयो हस्ते धिष्ठतेज निष्ठपामि गोष्ठम् मा निर्नृक्षम् वाचिनन्त्वाथपत्रसाहकम् सम्माचम् प्राणम् चक्षुश्रोत्रम् प्रजाय्यानिम् मा निर्नृक्षम् वाजिनीयन्त्वाथ पत्रसाहीकुम् सम्मासानादौ मनसम् प्रजागुम् सौभाग्यन्त्वनो ्रता भूपेशुतायक्रजधस्तावजुसि अग्नेशत्रद्वासो अदाराभ्यमंश्याणस्पाश्यम बध्रेरस पिता सुके धातुन सुतकेश्यो ने सह क समायुषा सम्प्रजया समर्ग्ने वर्च्च सा महीनां पयोस्योधिकुम् रसस्तस्य ते क्षीयमाणस्य निर्मपामि महीनां पयोस्योधिकुम् रसोदभ्येन त्वा चक्षुषावे क्षे सुप्रजास्त्वायते ज्योतितेजो नुप्रेग्नि ते जो माविने यज्ञे जग्भो देवानाञ्जाम् ने धाम् ज्योतिदेवो वस्वत् पुना छिद्रेण पवित्रेण वसात् सूर्यश्च रश्मिभिः शुक्रन्त्वा शुक्राभ्याम् धाम् ने धाम् न देवे भ्यो यजुषे यजुषे गृह्णामि ज्योतिस्त्वा ज्योतिष्यर्तिस्त्वार्चिषाम् ने धाम् कृष्णास्याचरे स्वाग्नयेत्त्वा स्वाहा वेदिरसि परिहृत् त्वा स्वाहा बर्हिरतिसुभ्य स्वा स्वाहा दिवे त्वारिक्षाय त्वा पृथिव्यै त्वा स्वधा पितृभ्यो भव परिषद्भ्य ऊर्जा पृथिवीम् गच्छत विष्णास्तौ वा स्योर्णामृदन्त्वा तृणामि स्वा सस्थम् सर्वादि विश्वावसुर्विश्व स्मादिशतो यजमानस्य परिचिडी जितैन्द्रस्य बाहुलति दक्षिणो यजमानस्य परिधिडजी डितो मित्रावरुणो त्वत्तरतः परिधत्ता ध्रुवेण धर्म यजमानस्य परिशिडरीय सूर्यस्त्वा पुरस्ता पादुकस्यान्तां समिधे मह्यग् यन्त्रमादित्या नागुम् सदश चेतजुहोरुपभृधृपादिभृता तेनाम्ना प्रिये नम्ना प्रिये सदसि चेदैता सदा स्वस्य लोकेताविष्वा पाहि पाहि यज्ञम् पाहि यज्ञपतिम् पाहि माय यज्ञरियम् भुवनमसि नमः े यज्ञ स्वायजिदेव यज्ञाया उपभृते हि देवस्वादविद्रा यदि देव यज्ञाजा दे अग्ना विष्णो मा भाववक्रमिषम् विजिहाम् बाभाम् लोकं मे लोककृतो गृणतं स्वाहा बृहद्भाः पाहिवाग्ने दुश्चरिता गा मासु चरिते भजमखस्य शिराभिसञ्ज्योतिषा ज्योतिरन्ता वाजस्य माप्रथमेणो ग्राभेणोदर्ग्रभी अथा समर्नागुम् इन्द्रमे निग्राभेणाधरागुम् अगः उद्ग्राभम् च निग्राभम् च असाधपत्नानिन्द्राग्निमेव शोचेनान्यस्यता वसोऽभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वात्र गुम्रनाभियन्तो वजः प्रजायो निम्मानिर्मृक्षमाप्यायन्तामा वोषधयो मरुताम् पृषतयच्छतिमम् गच्छततो वृष्टिमेदय आयुष्पाहग्नेऽस्यायुर्मे पाहि चक्षुष्पाहग्नेऽसि चक्षुर्मे पाहि ध्रुपाधिजम् परिधिम् पर्यधप्था अग्ने, अग्ने, अग्ने देवाणिभिर्वीयमानः न्तजोषम्भरामिने देशत्वदपचेतयातै यज्ञस्य पाथ उपसमितश्रावभागाश्चेशाहन्त प्रस्थयेष्टापर्गिरश्च देवा इमाम्बास्प गृणन्त आसद्यास्मिन् वामपन्नगृहस्य सदशिशादयामि सुम्नाय सुम्नि सुम्ने माधत् तन्धुरिधुर्योपादमग्ने तद्धा योशीत जिवः पाहि पथित्यै पाहिदुरिष्ट्यै पाहिदुरध्मन्यै पाहि दुष्करिदादपिषन्नः पिदम् कृणदुरधाज्ञ स्वाहा देवाघातविदोऽघातुम् विद्वाघातुविदमनधस्पद इमन्नो देवदेवे यज्ञ स्वाहा वाचिस्वाहा वादेधाः उभावामिन्द्राग्नी आहुवद्भ्या उभाराधत सहमादयभ्यै उभा दाताराभिगम् रजेनामुभावाजस्य सातयभुदेव अश्वपटुम् विभो ऋतावत्तरा वाम् विजावा तुतवाजा स्यालात् अथा सोमस्य प्रयति युवभ्यामिन्द्राग्ने स्तोमञ्जनयाभिनव्यम् इन्द्राग्नेरहतिम् पुरो राजपत्मीनधोऽनुतम् साकमेकेन कर्मणा सुचन्मस्तो मन्नवजातमद्येन्द्राग्नेरमित्रहणाजुषेथा वाहि वागुम् शुभवाचो भवेमिता वाचगम् सद्य उसतेथेष् वयमुत्त्वापशस्पथे रथन्नवाचसादरे धिये पोषन्वयुज्महि अथस्पथः परिपदिम्बजस्या काव्येन कृतो अभ्याननर्कम् सदोराधश्चन्द्राग्राभियम् धियगुंसी रथा प्रपोषा क्षेत्रस्य पदिनाभयम्धिजेनैव जयामसि गामश्वम् पोषहितनामृढा कीदृशे क्षेत्रस्य पदे मधुमन्त्र भोर्मिन्धे रवयो अस्मात् सूक्ष्मा मधुश्च्युतम् घृतनि वसुपोरपदस्य अस्मान् विश्वानि देवमयुनानि विद्वान् योऽध्यस्मज्जुः राणवेनो भूयिष्ठान्ते नवभुक्तिम् विधेम आदेवा नाम पिपन्थामजन्मयच्छक्रवामतदनुप्रवोढुम् अग्निर्विद्वान्स याश्चासो अध्वरान्सृतोन् कल्पयाति यद्बाहिष्ठन्तरे विभावसो मयिषी मत्त्वयस्त्वद्वाजा उदीरते ग्ने त्वम् पादयानव्यस्मान्भिरवाश्च वृक्षे बहुलानपूर्वीभवातोषयः त्वमाग्ने व्रतवासि देव आवर्त्येष्वा तै यज्ञेष्वेद्यः यद्वो वयम् प्रविनामव्रतानि विदुषाः देवः अपि दुष्टराजः अग्रक्षमाभृणादिविद्वारे देवागमृतुभिः कल्पयाति